नारायणीयं दशकं 55 मीटर तोटकम् अथवारिणिघोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् द्रुतमारिधतीरगनीपतरुं विषमारुदशोषितपर्णचयम् अधिरुह्यपदाम्बुरुहेण चतम् नवपल्लवतुल्यमनोज्ञरुचा ह्रदवारिणि दूरतरण्यपदः परिकूर्णिदपोरतरङ्गगणे भुवनत्रयभारभृतो भवतो गुरुभारविकम्बिविजृम्भिजला परिमज्जयदि स्मनुशतकं तडिनी झडिदि स्फुटकोशवती अथ दिक्षुभिदिक्षु उदगादुदगा दुरगाधिपदेस्त्वदुपान्तमशान्तरुषान्धमनाः फणशृङ्गसहस्रविनिःसृमरज्वलदग्निकणोग्रविशाम्बुधरं पुरदः पणिनं समलोकयथा बहुशृङ्गिणमञ्चनशैलमिव ज्वलदक्षि परिक्षरदुग्रविषश्वसनोष्म भरः स महाभुजगः परिदंश्य भवन्तमनन्दबलं समवेष्टय दस्फुटचेष्टमहो अविलोक्य कुलिते, अलोक्य भविदाबाकुणे व्रजगेशतलेप्यनशत सीक्ष्य गदायमुनां पशुपाहा, अखिलेशु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् फणिबन्धनमाशु भवदा अधिरुह्य कलषिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसङ्कुलसङ्कणितम् जहृषुः पशुपास्तु तु परिपाहि समां त्वमदागदाद सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द